काश महींद्र शिखरो ऐश्वर्यस्य समग्रस्य फलदं द्वन्द्वपरिजितम् ब्रह्महत्यादिपापघ्नम् पापाद्यरिभयाप I watched it. लोका लोका चला अविकार लोकाचा वृता अकार स निज्ञानुणावृता पंचीकरण पंचोदूत तेदिता वेदोपनिषदर्थ्य दिगणसेता सक्रह गण सदारेरिवंदता गाथ शिका महर्जनस्तपः सत्यलोको परिसंस्थिता अग्निलोचना सदेवर्षिमूर्तिं च परसङ्गिकाम् तिथिमा सर्तु वर्षाख्यसुखे तु ka shaam स्वात्मनि भेदेन ब्रह्म पञ्जर मारभेत् I forgot to परां रमायाम् श्यामरैर्दर्पणैर्युताम् षडङ्गदेवता मन्त्ररूपाद्य वयवात्मिका केयोर् कङ्कणाद्यैरलङ्कृताम् दिव्यस्रग् I shut भवपादा शताक्षरी व्योमाख्या पातु मे चोर्ध्वां भिशं वेदाङ्गसंस्थिता ल् वक्षस्रुवान् मे पातु नैरृति चतुर्भुजा वेदमाता शुक्लांगी शुक्लाङ्गी वृषभाहि वराभयक पराक्षस्रग्णी पातु वारुणी श्यामा सरस्वती वृद्धा ी गरुडासना शङ्काराब्जाभयकरा दिक्षु स्थिताः पान्तु गृहशक्त्यङ्गदेवता मन्त्राधिदेवतारूपा मुद्राधिष्ठा देवता व्यापकत्वेन पात्व स्माना परतलमस्तकौ तत्पदं मे शिरःपा तु भालं सवितु पदम् वरेण्यं मे दृश पातु श्रुतिर्भगः सदा पञ्जरम् सन्ध्ययः प्रत्यहम् भक्त्या जपकाले विशेषतः धा